देवं जगद्गुरुम् शंकरं परिपप्रच्छ पार्वती परमेश्वरम् महादेवी सर्वधर्मविदारे अद्भुतम् कवचम् देव्याः सर्वकामप्रसाधकम् विशेषतः शत्रुनाशं सर्वरक्षाकरन् नृणाम् विनाशनम् सुखदं भोगदं चैव वशिकरणं उत्तमं शत्रुसङ्घाक्षय यांति भवन्ति व्याधिपीडिताः दुःखिनो ज्वरिणश्चैव स्वाभीष्टद्रोहिणस्तथा चैव कालिकाकवचं पठे Hey शुभा सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॐ ह्रीं ह्रीं रूपिणीं चैव रां ह्रीं रां तथा रां ह्रीं शौं स्वरूपा सदा शत्रुन् विदारयेत् श्रीं ह्रीं ऐं णि देवि भवबन्धविमोचनी हूरूपिणी महाकाली रक्षास्मान् देवि सर्वदा यया शुम्भो हतो दैत्यो निशुम्भश्च महासुरः वैरिनाशाय वन्दे ताम् शंकरप्रियाम् ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका कौमायैन्द्री च चामन्दा खादन्तु मम विद्विषः सुरेश्वरी घोररूपा चण्डमुण्डविनाशिनी च, ृता पा सदा रीम, रीम, रीम काली ह्री ह्रीं ह्रीं कालिकेोरविप्रिए रुधिरापूर्ण वक्धिवृतस्तनी शत्रून् खाद्य खाद्य हिंस हिंस मारय मारय भिन्दे भिन्दि चिन्दि चिन्दि उच्चाटय उच्चाटय द्रावय द्रावय शोषय शोषय स्वाहा रां भीं कालिकायै मदीयशत् समर्पयामि स्वाहा ॐ जय जय किरिकिरिकिटिकिटिकटकटमर्दमर्दमोहयमोहय हर हर मम रिपू ध्वंस ध्वंस भक्षय भक्षय त्रोटय त्रोटय यातु धाना चामुन्दे सर्वजना Radhyo Raja Purushan, Sriyomavavashan, Kuru Kuru, Tanu Tanu, Thanyam Dhanam Meshwan, Dhajaan Ratnani Yuvyakamini Putran, Raja Shriyam Dehi Acha Ksham Shriyam, स्वाहा इत्येतत् कवचम् योगम् कथितं शम्भुना पुरा ये पठन्ति सदा तेषाम् ध्रुवन्नश्यन्ति शत्रवः प्रय यान्ति व्याधिकाया भवन्ति बलहीनाः पुत्रहीना शत्रवस्तस्य सर्वदा सहस्रपठनासिद्धिः प्रवचस्य भवेत्तदा तत्कार्याणि च सिद्धन्ति यथा शङ्करभाषितम् श्मशानाङ्गा दत्त्वा तु हृदये प्रवचन्तु स्वयम् पठे शत्रुः प्राणप्रियष्ठान्तु कुर्यान्मन्त्रेण मन्त्रवि हन्यादस्त्रम् प्रहारेण शत्रो गच्छयमक्षयम् ज्वलदङ्गारतापि ज्वरिताभृशम् ऊच्छनैर्वामपादेन दरित्रो भवति ध्रुवम् वैरिनाशकरं प्रोक्तम् कवचं परमैश्वर्यदं परमैश्वर्यैव पुत्रपौत्रादिबुद्धिवम् पूजा काले चल साये तथा पाठा सर्विद्धिभवे ध्रुव शुच्चाटनीति देशाविच्युत भवि पश्चात्कता त्यम् असंषयः शत्रुनाशकरे देवि सर्वसम्पत्करेषु भि सर्वदेवस्तुते देवि तालिके